गणेशपुराणम् उपासनाखण्डम् अध्यायं सिक्स्टि सेवन् गणावोचुः आज्ञप्ता तेन मुनिना स्वाभिप्रेतार्थसिद्धये एकदूर्वाङ्गुरं गृह्य शक्रसन्निधिमाययौ तमुवाचाश्रयाशक्रदेहिमे काञ्चनं शुभम् याचितुम् त्वाम् समायादा भर्तृवाक्यात् सुरेश्वर इन्द्र उवाच किमर्थम् त्वमिहायादा यद्याज्ञा प्रेषिता भवेद् मया सम्प्रेषितम् स्याचे जादरूपम् स्वचक्रितः आश्रयोवाच दूर्वाङ्गुरस्य तुलया यद्भवेत् काञ्चनं सुर तत् गृहीष्ये शचीर्भर्तन्यूनं न च वाधिकं चक्र उवाच दूतैनां नयशीघ्रं त्वं कुबेरभवनं प्रदि सदास्यदि दास्यदि सुवर्णं च दूर्वाङ्गुरमिदं शुभं गणावोचुः आज्ञया देवराज्यस्य देवदूतस्तया सह प्रायात् कुबेरभवनं चक्रस्य वचनात् तदा अस्यै दुर्वाङ्गुरमिदं जादरूपं प्रदीयताम् इन्द्रेण प्रेषिता मुनिपत्नी मया सह प्रापिता भवनं तेद्य यामि देवनमोऽस्तु ते दे कुबेर उवाच अत्याश्चर्यमहं मन्ये मुनिशक्रस्तधाश्रया मोहाविष्ठानजानन्दिदुर्वाङ्गुरमिदं कियत् काञ्चनं तेन किं वा स्यात् बहुलं किं न याचितं गणाऊचुः एवमेव ददौ तस्यै बहुलं काञ्चनसः न जग्राकपया धर्तुर्न्यूनाधिकविशङ्कया स्वर्णकारतुलायां तं दूर्वाङ्गुरमधारयद नाभवत्तुलया तस्य पर्याप्तं तत्तुहाडकम् वणिक्तुलासमानीदा तत्रापि नाभवत्समं तैलकारतुलायां तु दू दूर्वाङ्गुरसमं न च धडो बद्धस्तदस्तत्र भाटकं दत्तमेकदः दूर्वाङ्गुरो परत्रापि याधिपत्रमधस्तदा अन्यदन्यदधौ तत्र कुबेरकाञ्चनं बहु तच्चापि नाभवत्तेन समं दूर्वाङ्गुरेण च सर्वकोशगं द्रव्यं दत्तं तेन गिरीन्द्रवद तथापि नाभवत् साम्यं तेन दूर्वाङ्गुरेण तद् पत्नीमाहूयतां प्राह कुबेरकौतुन्वितः कुरु मद्वाक्यदः सुभ्रुतडारोहणमग्रतः न समं चेत् समारोक्ष्ये निज सत्वरिरक्षया तदा न समा सापि तेनासीत् कुबेरोस्सौ न चोर्ध्वं जायतेऽङ्कुरः श्रुत्वा दूतमुखादिन्द्रो गजारूढः समाययौ स्वकीयद्रव्यसहितोढडमारुरुहे स्वयं दूर्वाङ्गुरो न स तथापि समजायत अधो मुखो गतश्चिन्ताम् किमेतदिति चिन्तयन् विष्णुं हरं च सस्मारतत्रारोहणकाम्यया तत्रा, तत्रा गतौ सनगरौ तडमारुहदां तदा तथापि नोर्ध्वमगमत्तदा दूर्वाङ्गुरं स्फुटं तदस्ते तद उत्तेरुशिव विष्णुधनेश्वरः वरुणेन्द्राग्निमरुदः कौण्डिन्यमभिदोययुः देवादेवर्षयश्चैव सिद्धविद्याधरोरगाः दिनान्ते समनुप्राप्ते स्वं नीडमिव पक्षिणः नमस्कृत्य मुनिं सर्वे प्रोजुरुद्विग्नते दशः वृजनम विल याद दर्शना तव भो मुने पूर्व मु पूर्वपुण्यवादग्रे कल्याण नो भविष्य तव पत्त सर्वेशा मध्यन स्फुट न जानीमो दूर्वांगुरसुद्भव एकदुर्वाङ्गुरतुलां त्रैलोक्यमपि नालभत गजाननशिरस्तस्य त्वया भक्त्यार्पितस्य च जनीयान्महिमानं क सम्यक् दुर्वाङ्गुरस्य यज्ञदानव्रततपःस्वाध्यायोऽपि न तत्समः गजाननैकभक्ति तस्य तपदो निशं तवापि महिमानं को जानीयात् सर्वदेहिनः एवमुक्त्वा मुनिं सर्वे पूर्वं पूज्यगजाननं सर्वे सभार्य कुपूजुस्तुष्टुवुर्ननृतुर्जगुः न ब्रह्माणहरिक्षिवेन्द्रमरुदो नाग्निर्विवस्वान्यमः शेषो शेषकलानिधिश्च वरुणो नो चन्द्रमा नाश्विनो नो वाचामधिपो न चैव गरुडो नो यक्षराण्णाङ्गिरा माहात्म्यं परिवेदेवनिगमायुर्जाज्ञातरूपस्य ते एवं सन्तोष्य सर्वे ते गजाननं मुनिं च समनुज्ञाप्यययुस्वं स्वं निकेतनम् आश्रयापि ततो ज्ञात्वा दूर्वमाहात्म्यमुत्तमं विश्वस्तभर्तृवाक्ये स दूर्वाभिप्रत्यभोजयत विघ्नेश्वरं सर्वदेवं सर्वैर्दुर्वाभिरर्चितं प्रणनामजकौण्डिन्यं भर्तारं सत्यवादिनम् उवाच सुप्रसन्ना सा स्वात्मानं निन्ददी भृशम् आश्रयो वाच मादृशी नैव दृष्टास्ति यादेवाक्ये संशया विशेषविदुषां स्वामिनि विशेषविदुषात्वया त्वया सम्यकृदं मम विभो सर्वभूतदयावता तत्क्षमस्वापराधमे त्वामहं शरणागदा ततः प्रातः समुद्धाय स्नात्वा देवं समभ्यर्च्य दूर्वार्पणमकुर्वदाम् अनन्यभक्त्या ज्ञात्वा तौ दूर्वामाहात्म्यमुत्तमम् सायं प्रादर्देवदेवं पूजयन्तौ निरन्तरं त्यक्त्वा यज्ञव्रतं दानं ज्ञात्वा देवो गजाननः कृपया परया विष्टस्वधामप्रत्यपादयत् गणाऊचुः अगाधं वर्णितं दूर्वामाहात्म्यमिदमुत्तमम् अशेषवर्णने शेषो नेशो नेशो, नेशो हरीश्वरौ त्रैलोक्यं तुलया यस्या पत्रेणैव भवत्समम् दुर्वेदिस्मरणात् पापं त्रिविधं विलयं व्रजेद तत्स्मृतो स्मर्यदे देवो यतसोऽपि गजाननः इति चिन्ता मणिक्षेत्रमहिमा वर्णितस्फुटं श्रवणात्कीर्तनाध्यानाद्भुक्तिमुक्तिफलप्रदः यस्मात् कारणाध्यानं त्रयाणां प्रेषितं शुभं रासभस्य मुखाद्दूर्वा गदा देवे वृषस्य च चाण्डाल्या शीतनाशाय त्वानीता तृणभारतः वायुना प्रबलेनापि गदा दूर्वां यतस्तस्य प्रिया दूर्वा सन्तुष्टोऽसौ विनायकः निष्पापत्वात्रयाणां ससान्निध्यं दत्तवान् गंधमात्रेण दूर्वायाया सन्धुष्टो जायते विभु प्रसंगे न दुभक््रिया व किंपुनस्तका ब्रह्मोवाचा यदि दूध मुखाद्राजा सश्रुदो महिमा तदा दूर्वाया मुनिर्न दृष्टो न संश्रुता स्नात्वा दूर्वाङ्घुरान् गृह्य पुपूजुस्ते विनायकं सेवकाश्चापि दूर्वाभिरानश्चीगजाननम् आसन् सर्वे दिव्यदेहस्तेजसा सूर्यवर्चसः शृण्वन्तो देववाद्यानां नानारावान् समन्ददः विमान दिव्य दिव्यवस्त्रानुलेपिनः यादा वैनायकं धाम केचित्तद्रूपधारिणः नरानागरिका केचिदागतास्तं महोत्सवं द्रष्टुं दूर्वाभिरानर्चुरेकविंशतिभिः पृथक् भुक्त्वा भोगांश्च ते सर्वे गणेशस्थानमागमन् विमानं चापि चलितमूर्ध्वं तत्पुण्यपुञ्जदः तस्मात् गणेशभक्तेन कार्यं दूर्वाभिरर्चनं नकरो दिनरो यस्तु प्रमादात्ताभिरर्जनं स चाण्डालस्तु विज्ञेयो नरकान् प्राप्नुयात् बहून् न तन्मुखं निरीक्ष्येत मानव यस्तु दूर्वाभिरर्चेत्तं देवदेवं गजाननं तस्य दर्शनतोऽन्योऽपि पापी शुद्धिमवाप्नुयात् अलाभे बहु दुर्वाणा मेकयैवाभिपूजयेत् केनापि कोटिगुणिता कृता पूजा संशयः ब्रह्मोवाच यदि नानाविधो राजन्महिमा कथितस्तव सेदिहासस्तु दूर्वाणां श्रवणात्मापनाशनः नाख्येयो बुद्धेस्तु प्रिये पुत्रे निवेदयेद। इन्द्र उवाच इति ब्रह्ममुख्रुत्वा परमाख्यानमुत्तमं ननन्दपरमप्रीदो ननामकमलासनं तदाज्ञया ययौ स्थानं स्वकीयं विस्मयान्वितः इति श्रीगणेशपुराणे उपासनाखण्डे दूर्वमाहात्म्ये सप्तषितमोध्याय